न हि भार्येति विश्वासः कार्यः पुंसा कथञ्चन न हि नारी पुत्रवती सती वैशंपायन उवाच ततस्ते सर्व एवैनं पुत्राः सम्यगुपासते स च नानात्मजान् सर्वानाश्वासयितुमुद्यतः इति श्रीमहाभारते आदिपर्वणि मयदर्शनपर्वणि शार्ङ्गकोपाख्याने द्वात्रिंशदधिकद्विशततमोऽध्यायः